Ka-a-a-a ja yeah. Thank you. ta uh. ja yeah. a oh. a to ma ञ्जन विमलनयन ज्ञान जन विमलनयन तिष्ठजर भवसागर तिर् ऊन् रे पाथा मता जन लचर नक माहितम निरखि तव कृञ्जन दुख गञ्जन चरुणाघ कर् मठो काणारपण जगर जगत तरण नगलिदो संचन काम कांचन अति दीनदित इंद्रयना त्यागीश्वर हे नर सवा निष्कार भगत शरण निष्कार भगत शरण तजेजाति कुलमां तद् तव शिपद तव गोष्पद ि जथापण सन्दरमर युख जा तदपदमारि जथा जग जन दुखदा नमो नमो प्रभु बनादे नभो नमो नमो प्रभु प्रभुवाक्य मनादे वचनै काधा प्रभु मन वचनै का ज्योतिरज्योति जलश्रिकन्द ज्योतिरज्योति जलश्रीरिकन्दमि तमभं जनहा सर्वम तमभं नमो नमो प्रभुवाक्यमनादि नमो नमो प्रभुवाक्यनादिनवचनै काधा प्रभु मनवचनै काधं ज्योतिर ज्योति जलश्रि गन्ध ज्योतिर ज्योति जलश्रि गन्ध me tamabhandanah abu tumi tamabhandanah mm -hmm. dede de langharangavang aje angasangam pritam dede langharangavang aje angasangam pritam गय छन्द भगत मिन्दरति तमा छन्द भगत मिन्दरती तु जय जय आरती तमा हर हर आरती तमा शिव शिव आरतीमा